लोकवृते नमः ॐ लोकेश्वराय नमः ॐ क्षरातीताय नमः ॐ अक्षरोत्तमाय नमः ॐ लोकवेदप्रथितपुरुषोत्तमाय नमः ॐ सर्ववित्सेविताय नमः ॐ सर्वभावसेविताय नमः ॐ गुह्यतमशास्त्राचार्याय नमः कृकृत्यताविधायने नमः ॐ दवासुरसम्पद्विवेचकाय नमः ॐ दैवसम्पत्सम्पन्नाय नमः ॐ दैवसम्पदभिगम्याय नमः ॐ आसुरसम्पदनासाद्याय नमः ॐ आसुरस्वभावबोधकाय नमः मादित्यागतप्तत्प्राय नमः ॐ नरकद्वारविदूराय नमः ॐ विमुक्तकामगम्याय नमः ॐ शास्त्रत्यागासहनाय नमः ॐ कामकारनिराकर्त्रय नमः ॐ कार्यव्यवस्थापकशास्त्रतात्पर्याय नमः हिततर्कप्रशंसाय नमः ॐ श्रद्धात्रयविवेक्त्रे नमः ॐ स्वभावसिद्धश्रद्धाविधे नमः ॐ सात्विकाद्याराध्याय नमः ॐ सात्विकाहारानिरताय नमः ॐ राजसाहारविरक्ताय नमः ॐ तामसाहारजुगुप्सुकाय नमः म् सात्विकयज्ञप्रियाय नमः ॐ राजसेज्यारहिताय नमः ॐ तामसयज्ञगर्हकाय नमः ॐ शारीरतपःपराय नमः ॐ वाङ्मयतपोवेद्याय नमः ॐ मानुसतपोगम्याय नमः ॐ सात्विकादीप्तपोविवेचकाय नमः ॐ सात्विकदानाराध्याय नमः ॐ देशकालपात्ररूपाय नमः ॐ सदसदर्थविवेक्त्रे नमः ॐ गाणसन्न्यससंशने नमः ॐ त्यागस्वरूपबोधकाय नमः ॐ असङ्गयज्ञादिविदायने नमः ॐ सात्विकादित्यागविदे नमः विदे नमः ओम् अकर्त्रात्मने नमः ॐ केवलाय नमः ॐ अनहङ्कृतभावाय नमः ॐ अलिप्तबुद्धये नमः ॐ कर्मानिबद्धाय नमः ॐ कर्मचोदनाविय नमः ॐ कर्मसङ्ग्रहसंविदिने नमः ॐ रजसुदानापूयताय नमः ॐ तामसुदानावज्ञायिने नमः ॐ तत्सदिते निर्देश्याय नमः ॐ कर्मारम्भनिर्दिष्टनामत्रयाय नमः ॐ सात्विकज्ञानवीक्षिताय नमः ॐ सात्विककर्माराधिताय नमः ॐ सात्विकर्ताराध्याय नमः ॐ राजसंज्ञानदूराय नमः ॐ रजसकर्तृदूराय नमः ॐ तामसज्ञानदवेश यया यसाय नमः ॐ तामसकर्मदवेयसाय नमः ॐ तामसकर्तृदविष्टाय नमः ॐ सात्त्वगबुद्धिगम्याय नमः ॐ राजसबुद्धिदूराय नमः ॐ तामसबुद्धेदवीयसाय नमः ॐ सात्विकादिधातृविदे नमः ॐ सात्विकसुखसंविदे नमः ॐ रजस सुखविमुखाय नमः ॐ तमस सुखजुगुप्सकाय नमः ॐ ब्राह्मणादिकर्मविभाजकाय नमः ॐ स्वकर्मसमाराजिताय नमः ओम ओम स्वधर्म िया नम ओंर्म्रवणा नम ओं परिने नम ओं सहजधर्मगनकाय नम ओं असंगफलशंसिने नम ओं त्यक्षा नम ओं रागद्वेशुदासीय नम ओं सर्वूतहृदयस्थिताय नम सर्वभूतभ्रामकाय नमः ॐ सर्वभावगम्यशरणाय नमः ॐ सर्वप्रसन्नाय नमः ॐ विविक्तसेवने नमः ॐ यतवाचे नमः ॐ यतमानसाय नमः ॐ ध्यानयोगपराय नमः ॐ वैराग्यश्रिताय नमः ॐ मुक्तकाकामक्रोधाय नमः ॐ प्रसन्नात्मने नमः ॐ भक्त्यैकगम्याय नमः ॐ शाश्वतपदाय नमः ॐ ज्ञानैकपदाय नमः ॐ कर्मसन्यसस्थानाय नमः ॐ सर्वदुर्गतारकाय नमः ॐ शाश्वताय नमः ॐ सर्वेष्टाय नमः ॐ सर्वहिताय नमः भक्तप्रपत्तव्याय नमः ॐ शरणागतत्राणपरायणाय नमः ॐ गीताध्यानसन्तुष्टाय नमः ॐ गीताश्रवणप्रणेताय नमः श्रीभगवद्गीतासहस्रनामावदे समाप्ता